श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथाशीतितमोऽध्यायः के द्वारा सुदामाजी का स्वागत राजुवाच भगवन्यानि चान्यानि मुकुन्दस्य महात्मनः वीर्याण्यनन्तवीर्यस्य श्रोतुमीक्षामहे प्रभो को नु श्रुत्वा उत्तमश्लोकसत्कथाः विरमेतरविशेषज्ञो विषन्न काममार्गणैः सा वाग्यजातश्च गुणान् गृणीति गृणीते करौ च तत्कर्म करौ मनश्च स्मरेद्वसन्तं सृजङ्गमेषो शृणोतु तत्पुण्यकथा च कर्ण शिरस्तु तस्यो भयलिङ्गमानमे तदेव यत्पस्यति तद्धि विष्णुर्थ विष्णोऽर्थतज्जनानां पादोदकं ज्ञानि भजन्ति नित्यम् श्रोतुवाच विष्णुरातेन सम्पृष्टो भगवान् वादराजलिः वासुदेवे भगवती निमग्नहृदयो ब्रवी श्रीशोकुवाच कृष्णस्यासि स काके सीद्ब्राह्मणो ब्रह्मवित्तमः विरक्तैन्द्रियार्थेषु प्रशान्तात्माजितैन्द्रियः यदीक्षयोपन्नेन वर्तमानो गृहाश्रवीम् तस्य भार्या कुचैलस्य छुच्छामा च तथाविधा पतीव्रता पतिं प्राह म्लायता वदनेन सां दरिद्रासीदमाना सा वेपमानाभिगम्य च ननु ब्रह्मण् भगवत सखा साक्षा श्रियपतिः ब्रह्मण्यश्च शरण्यश्च भगवान् सा तुतर्षभ तमुपैः महाभागसाधुनां च परायणं दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने आस्तेऽधुना द्वारवत्यां भोजविष्ण्यन्धकेश्वरः स्मरतपादकमलमात्मानमपि यच्छति किं नर्थकामान् भजतो नात्यभीष्टां जगद्गुरुः स एवं भार्या विप्रो बहुश प्रार्थितो मृदुः अयं हि परमूलाभ उत्तमश्लोकदर्शनम् इति सञ्चित्य मनसा गमनाय मतिं दधे अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयतां याचित्वा चतुरोमुष्टिन् विप्रान् पृथुकूं पृथु पृथुकन् तण्डुलान् चैलखण्डेन तान् बद्ध्वा भरते प्रादादुपायनम् सातानादाय विप्राग्रयः प्रयौ द्वारकां किल कृष्णसन्दर्शनं मह्यं कसंशादेति त्रीणि गुल्मान्यतीयाय तिस्रकक्षास्ति स द्विजः विप्रो गम्यान्धकव्यीणां गृहे स्वच्युतधर्मिणां गृहं द्वयष्टसहस्राणां महिषीणां हरे द्विजः दिवे सैकतमं श्रीमन् ब्रह्मानन्दं गतो यथा तं विलोक्या च्युतो सहस्रोत्थाय चाभेत्य दोर्भ्याम् पर्यग्रहीन्मुदा सख्युप्रियस्य विप्रर्षे रङ्गात् निवृतः तेतोऽव्यमुञ्चदम् बिन्दुन्नेत्राभ्याम् पुष्करे क्षणः अथोपवेश्य पर्यङ्के स्वयम् सख्यो समर्हणम् उपहृत्यवनिद्यास्य पादौ पादावने जनिः अग्रहेच्छिरसा राजन् धमाल्लोकपावनः दलिं पद्दिव्यगन्धेन चन्दना गुरुकुङ्कुमैह धूपैः सुरभिर्भिमित्रं प्रदीपावलिभिर्मुदाम् अर्चित्वा वेद्यताम्बूलं गां च स्वागतमब्रवीत् शुचैलं मलिलं क्षामं द्विजं धमन्नि सन्ततम् देवी पर्यचरस्साक्षात् चाम्रव्यजनेन वै नन्तपुरुजनो दृष्ट्वा कृष्णेनामलकीर्तिनां विस्मतो भूदति प्रीत्या अवधूतं सभाजितं किमनेन कृतं पुण्यम् अवधूतेन विक्षुणां श्रियासीनेन लोकेऽस्मिन् गर्हितेनाधमेन च योऽसौ त्रिलोकगुरुणा श्रीनिवासेन संभृतः पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तो ग्रजो यथा कथयांश्चक्र दुर्गाथाः पूर्वा गुरुकुले सतोः आत्मानो ललिताराजन् करो ग्रीह्य परस्परम्